चाणक्यनीति शिफ्टी यवीभूतर्वजंतुषु तर ज्ञान मोक्षेण किं जडा भस्मेपन ये कम्यक्षर यस्त गुशिष्य पृथिव्यां नास्ति तद्रव्यं यद्दत्त्वा सोऽनृणी भवेद कलानां कण्टकानां च द्विविधैवप्रतिक्रिया उपानन्मुखभङ्गो वा दुरदो वा विसर्जनं कुचैलीनम् दन्तमलोपधारिणं बह्वासिनं निष्ठुरभाषिणं च सूर्योदये चाष्टमिधे शयानम् विमुञ्चदि श्रीर्यदि चक्रपाणिः त्यजन्तिमित्राणि पुत्राश्च ताराश्च सुहृज्जनाश्च तमर्थबन्धम् पुनराश्रयन्ति अर्थो हि लोके मनुष्यस्य बन्धुः अन्यायोपार्जितम् द्रव्यम् दशवर्षाणि प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति अयुक्तं स्वामिनो युक्तम् युक्तम् नीचस्य दूषणम् अमृतम् राघवे मृत्युर्विषं शङ्करभूषणम् तत् भोजनं यद्विजभुक्तशेषम् तत्सौहृदं यत् परस्मिन् सा प्राज्ञताया न करोदिपापम् दम्भं विना ह्यः क्रियते स धर्मः मणिर्लुण्ठतिपादाग्रे काचशिरसि धार्यते क्रयविक्रयवेलायाम् काचकाचो मणिर्मणिः अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविघ्नता च यत्सारभूतं तदुपासनीयां हंसो यथा क्षीरमिवाम्बुमध्याद दूरागदम् पथिश्रान्दं वृथा च गृहमागतम् अनचयित्वा यो भुङ्क्रे स चाण्डाल उच्यदे पठन्ति चतुरो वेदान्धर्मशास्त्राण्यनेकशः आत्मानम् नैव जानन्ति दर्वी पाकरसं यथा धन्याद्विजमयी नौका विपरीता भवार्णवे तरन्त्यधो गदाः सर्वे उपरिष्टाः पतन्त्यधः अयममृतनिधानं नायकोऽप्योषधीनाम् अमृतमयशरीरकान्तियुक्तोऽपि चन्द्रः भवदि विगदरश्मिर्मण्डलं प्राप्य भोः परसदननिविष्टको लघुत्वं नयाति अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः विधिवशात् परदेशमुपागतः कुडज पुष्परसं बहु मन्यते पीतक्रुद्धेन रणतलहदो वल्लभो येन रोषा दाबाल्याद्विप्रवर्यै स्ववदन विवरे धार्यदे वैरिणी मे वेहं मे चेदयन्ति प्रतिदिवसमुमा कान्दपूजामित्तं तस्मात् किन्ना सदाहम् द्विजकुलनिलयं नाथ युक्तं त्यजामि बन्धनानि खलु सन्धि बहूनि दारुभेद निपुनोपि षडङ्ग्रिर्निष्क्रियो भवति पङ्कज कोशेः छिन्नोऽपि चन्दनतरुर्न जहादिगन्धम् वृद्धोऽपि वारणपदिर्न जहादिलीलां यन्र्पितो मधुरतां न जहादिचेक्षुः क्षीणोऽपि न त्यजदिशीलगुणान्कुलीनः उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृदो लीलयातेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे त्वां त्रैलोक्यधरं वहामि कुजयोरग्रेण तद्गण्यते किं वा केश्यवभाषणेन बहुना पुण्याैर्यशो लभ्यते ॐ